गवादुवाच अनाश्रितः कर्मफलम् कार्यम् कर्म, कर्म करो ससन्न्यासी च योगी च न निरग्निः न चाक्रियः यम् सन्न्यासमिति प्राहुः योगम् तम् विद्धि पाण्डवा योगी भवति कश्चन eeva shamaha karanam utchya स्य येन युदसीन मध्यस्थवेष्ट्य अधुषु साधुष्वपि च पापेषु समबुद्धिः विषि एता चि यत चित्ता े प्रतिष्ठाप्य स्थिरमासनमात्मनः नात्युच्छ्रितम् नातिनीचम् चैराजिनकुशोत्तरम् तत्रैकाग्रम् मनः कृत्वा उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये यशिरोद्वीवम् धारयन् अचलम् स्थिरः सम्प्रेक्ष्य नासिकाग्रम् स्वम् दिशश्चानवलोकयन् प्रशान्तात्मा विगतभिः ब्रह्मचारिव्रते स्थितः मनः संयम्यमच्चित्तो युक्त मत्परः युञ्जन्देवम् सदात्मानं योगी नियतमानसगा शान्तिम् निर्वाण परमा मत्सं शीलस्य जाग्रतो नैव जा यदा विनियतम् चित्तम् आत्मन्येवावतिष्ठते निःस्पृहम् सर्व ुञ्जतो योगवात्म यत्रोपरमते चित्तम् निरुद्धम् योगसेवया यत्र चैवात्मनात्मानम् पश्यन्नात्मनि तुष्यति आत्यंतिकं आत्यन्तिकम् यत्तद्बुद्धिग्राह्यम् अतीन्द्रियम् वीत्यत्र न चैवायम् चलति तत्वतः लब्ध्वा च परम् लाभम् मन्यतेनाधिकम् ततः यस्मिन् स्थितो न दुःखेन गुरुणापि विद्या तम् विद्याद्दुःखसंयोगवियोगम् योगसं need them जयेन योक्तव्यो योगो निर्विण्णचेतसा सङ्कल्पप्रभवान् कामान् त्यक्त्वा सर्वानशेषतः मनसैवेन्द्रियग्रामम् विनियम्य समम् Surah Al-Fatihah. Thank you. Come on. प्रणश्यामि सजमे नप्रणश्यति आत्मौव येन सर्वत्र समम् पश्यति योर्जुन सुखम् वा यदि वा परमो मतः अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन एतस्याहम् न पश्या चञ्चलत्वात् स्थितिम् स्थिरा चञ्चलम् हि मनः कृष्ण प्रमाथि बलवदृढम् तस्याः निग्रहम् मन्ये वायोरिव सुदुष्करम् यम् महो मनो दुर्निग्रहम् जलम् अभ्यासे उवाच अयतिः श्रद्धयोपेतो योगाच्चरितमानसः अप्राप्य योगसंसिद्धिम् काम् गतिम् चिन्नो भयविभ्रष्टः छिन्नाभ्यमिव नश्यति अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि संचयम् कृष्ण चेत्तुम् अर्हस्य शेषतः त्वदन्यः संशयस्यास्य चेत्तानख्युपपद्यते पार्थनैवेद नामुत्र विनाशः तस्य विद्यते न हि कल्याणकृत् कश्चित् दुर्गति तात गच्छति ्रतम् उत्तिसं योगम् लभते पौर्वदे ततो शोऽपि सदा विज्ञासुरपि योगस्य शब्दब्रह्मा योगी ज्ञानिभ्योऽपि मतोऽधिकः कर्मिभ्यश्चाधिको योगी तस्मात् गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः